श्रीमत्स्वामिविवेकानन्दचरितं श्रीरामकृष्णवार्यार्विरचितम् अध्यायः एकबाल्यं विस्मयावहम् अत्यन्तं प्रोत्साहजनकं तथा विवेकानन्दचरितं विशिष्टं विश्वविश्रुतम् लेखितुं सुरभाषायां तत्तु यत्नं करोम्यहम् प्रमादो यदि सम्भूतो यातेऽहं वाचकाञ्च मां त्रयःषष्ट्यधिके पञ्चाष्टादशतात्मके वर्षे जानु मासे विशिष्टे द्वादसे दिने वङ्गदेशस्थलकल् कलकत्तानगरे बहुविश्रुते कायस्थकुलदत्ताख्ये वित्ययुक्ते कुटुम्बके नरेन्द्रनाथजन्मो भुञ्जननेत्री भुवनेश्वरी आसीत् तस्य पिता विश्वनाथदत्तो विभाचक नैकभाषाप्रवीणः स पण्डितो रसिकस्तथा नियमज्ञस्य वृत्त्या स प्रभूतं धनमर्जयत् दुर्गाप्रसादत्तस्तु विश्वनाथस्य जन्मदः संन्यासी सोभवद्विश्वनाथस्य जननात् परम् पितामहस्य संन्यासी जीवनं प्रति निश्चितं नरेन्द्रो ज्ञातवानासीत् यदा बालस केवलम् तदीयात्यन्तम् उत्कृष्टम् उत्कृष्टभविष्यत्कालजीवने एतस्या घटनाया किं प्रभाव समझायत। विश्वनाथस्तथा दुर्गाप्रसादश्च बहूवतुः सङ्गीतप्रेमिणो नादतयोरतिमनोहर यद्धनं विश्वनाथेन निर्वृत्त्या समर्जितम् उदारचिदत्ततां तापूर्वं व्ययितं तेन सर्वदा यद्धनं विश्वनाथेन निर्वृत्या समर्जितम् उदारचित्तथा पूर्वं व्ययितं तेन सर्वदा अन्येषां दुःस्थितिं दृष्ट्वा दुःखितः स भवेद् बहु साहाय्यं विद्रुतं तेषां विनाशङ्कं स्याचरेत् अतिबुद्धिमत्यासे तत्पत्नी भुवनेश्वरी सङ्गीते गृहवृत्त्यां च सेवने तत्परा च सा धर्मनिष्ठा शिवभक्ता पुराणाध्ययन्दोत्सुका अगायत्कृष्णगीतालीनादेन मधुरेण सा असहायान् तथा दीनान् प्रतिसा करुणामयि तस्या स्मरणसामर्थ्यम् आसामा आसमा असामान्यम् अभूद्यपि अन्ययो श्रेष्ठदम्पत्यो सुतः प्रथमयो मृतः पश्चाज्जाता सुता सापि बाल्येव दिवं गता पुत्रीत्रयं पुनर्जातं तनुजः किन्तु नाभवत् एता सूतनया स्वेका परम्पराया रक्षार्थं पुत्रो भवितुमर्हति इत्येवं चिन्तयामास वराकी भुवनेश्वरी अतसा सा करुणामृतिं महेशं जगदिश्वरं, प्रार्थयामास तं लाभार्थं विरतिं विना अन्ततो भुवनेश्वर्या स्वप्नो दृष्टकदाचर निजान्तप्राविशच्चेति शिशुरूपेण शङ्करः उच्चरन्ति शिवनामं जजागार जवेनसा। एवं तस्या प्रार्थनाया फलं सा प्राप्तवत्यपि नरेन्द्रजन्मवृत्तान्त इत्यम् इत्थम् अद्भुतनिर्भरः दिव्यावतारचिह्नं तु जीवने तस्य लोकितम् त्रिवर्षियो यदा सोभून् कुचेष्टितम् सकुचेष्टितम् आसीन् यन्त्रणातीतं चापल्यं बालकस्य शिवनाम जपं कृत्वा शिशोः शिरसि पातये यदि सीताजलं बालशान्तः स्यात्कथये जनी रजदातु सुतं चेति गिरिशम् अहमर्थे अप्रेषयत्तो भूतानाम् एकं हन्त स मां प्रति इत्येवं कथयामास जननी भुवनेश्वरी यदा पुत्रस्य चापल्यं दुःसहं समजायत सन्यासिनो यदा भिक्षां याचितं गृहमागता धावति स्म नरें तेषां समीपं सत्वरं सदा यत्किञ्चिदपि हस्तेन समुवापसत्क्षणे तत्तु शङ्कां विना यच्छन् याचकाय सबालक प्रवेशये प्रकोष्ठे तं पिता तस्य कदाचन बद्धियात्तालेन च द्वारं यदा गच्छति याचकः यत्किञ्चिदपि तत्काले निजहस्तगतं भवेत् प्रक्षिपेज्जालकद्वारा नरेण तं भिक्षुमद्दिशन् समृद्धो भोज्यदा बालो रुचिश्च विपुलाभवत् अजे चापि मयूरे च कपोते स्निग्धं निग्धमान् स च प्रीतिमान् सारथो भूयो भृत्येषु सुच विशेषतः निजमातृमुखाद् बाल्ये नरेन्द्रो श्रुतवानपि रामायणादिविधां पौराणिककथावलिम् अतीव सावधानं शोष सृणीयात्तादृशी कथा तदीयमानसेतासां प्रभावो भू नरेन्द्रो ध्यानशीलस्तु बाल्यादेव विलोकितः आस्ति स्म स चिरं सीता रामबिम्बागृतः कुचिन् सर्वं परिसरं तस्य ध्यानकाले स विस्मरेत् आह्वानं स च तत्काले कस्यापि श्रियान्नहीन् शिवध्यानपरो भूत्वा कदाचित् स उपाविशन् अवन् अवर्तन्त च तत्पार्श्वम् इतरे बालकाह्यपि सहसा सर्पयेकस्तु सत्समीपं समागतः दृष्ट्वेदं शकला बाला आक्रन्दन् अकुर्वत उच्चाह्वानं कुमाराणां नरेन्द्रेण न हि श्रुतम् अबाध्यानमग्नशन् नुपविष्टश्चलम् धावित्वा तस् हिः सङ्घो गतः इदं वृत्तं यदा पृष्टं पितृभ्याम् उक्तवान् नरेन् परमानन्दमग्नोऽहम् निद्राया समये तेन भ्रूमध्ये स्वस्य वीक्षितः प्रकाशबिन्दुरेकस्तु धवलाभासमन्वितः अनुभूतं इदं सर्वैरित्येवं तेन चिन्तितं परन्तु तस्य मित्राणि तथा नैवेत्य सूचयन। पश्चात् परमहंसेन सर्वं ज्ञातमिदं यदा पर्वजन्मार्जिता ध्यानसिद्धिरे सेति सोऽवदत् आजन्म तस्वभावस्य भागये सा भवत्तथा तीव्रता चापि सात्यत्वं क्रमाक्षीणं तु यद्यपि